अह सास्यं मम पूरयेति सरसं सम्प्रार्थिताया तदा वक्तुं किञ्चिदुदञ्चिते आधरतरे मन्दाक्षमग् वचर अंसावर्तितौ आननं पुरगिदौ तडङ्कर् रत्नप्रभारम्यं गण्डतर मू विवलिता दृष्टिः Priya siya dhare